अहमेव च तं कालं वेत्स्यामि कुरु नन्दन तपसा महता चापि दास्यामि भवतोऽप्यहम् आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीं ददौ सुरपतिश्चैव क्वरं कृष्णाय धीमते एवं दत्त्वावरन्ताभ्यां सह देवैर्मरुत्पतिः उताशनमनुज्ञाप्य जगामतृविदं पावकश्च तदा दावन् दग्ध्वा समृगपक्षिणम् अहानि पञ्च चैकञ्च विरदामसुतर्पितः जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च युक्तः परमया प्रीत्या तावुवाचाच्युतार्जुनौ युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथा सुखम् अनुजानामि वां वीरौ चरतञ्जत्र वाञ्छितम् एवन्तौ समनुज्ञातौ पावकेन महात्मना अर्जुनो वासुदेवश्च दानवश्च मयस्तथा परिक्रम्य सर्वे त्रयोऽपि भरतर्षभ रमणीए नदी कूले इति सहिता सी श्रीमहाभार शतसह्रिया संहितायाँ वैयासिक्यापर्व मयदर्शनपर्वि वर प्रद्रिशद्विशतमोध्याय